श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध त्रिंशोऽध्यायः सुन्दरस्मितिवक्त्राब्जं नीलकुन्तलमण्डितं पुण्डरीकाभिरामाक्षं सुरन्मकरकुण्डलं कटशूत्र ब्रह्मसुत्र करीटकटकाङ्गलै रणपूरमुद्राभिकौस्तुभेन विराजितम् वनमालापरिताङ्गं मृतभे मुर्त मृतिं मध्ये निजायुतै कृत्वो रौ दक्षिणे पादं आसीनं पङ्कजारुणं मूसलावेशेषाया खण्डकृतये सुलब्धकोजरा मृगास्याकारं तच्चरणं विव्याधमृगशङ्कयाम् चतुर्भुजं तं पुरुषं दृष्ट्वा सकृत किल्विषः भीतपपातशेषापादयोरसुरुद्विषः अजानता कृतमिदं पापेन मधुसूदन चन्तुर्मर्हसि पापस्य उत्तमश्लोकमेन यस्यानुस्मरणं नृणाम् अज्ञानध्वान्तनाशनम् वदन्ति तस्य ते विष्णो मया साधु कृतं प्रभो तन्मासु जहि वैकुण्ठपाप्मानं मृगलुब्धकं यथा पुनरहं त्वेवं न कुर्यां सदति क्रमं यस्यात्मयोगरचितं न विदुर्विरिञ्चो रुद्रादयोऽस्य तनया पतियो गिरां ये एतन तन्मायापि हि तद्दृष्टन् एतदञ्जः किं तस्य ते वयमसङ्गतयो गृणीमः श्रीभगवानुवाच मा भैर्जरे त्वमिन् तमुत्तिष्ठ कामे स कृतो हि मे याहि त्वं स्वर्गं सुकृतिनां पदम् इत्यादिष्टो भगवता कृष्णेनेच्छा शरीरिणा ते परिक्रम्य तं नत्वाभिमानेन दिवं ययौ दारुककृष्णपदवीम् अन्विक्षन्नधिगम्यतां वायं तुलसिकामूदम् आघ्रायाभिमुखं ययौ तं तत्र तिग्मदुभीरायुधैर्वितं यस्वत्थमूले कृतकेतनं पतिं स्नेहप्लूतात्मा निपातपादयोः अथादवप्लुत्य सबास्वलोचनः अपश्यन् त्वच्चरणाम्बुजं प्रभो दृष्टि प्रन्नष्टा तमसे प्रविष्टां दिशो न जाने न लभे च शान्तिं यथा निशायामुडपे प्रनष्टे इति ब्रुवते सुतैवैरथो गरुलाञ्छनः समुत्पपातराजेन्द्र सरस्वध्वज बुदीक्षतः तमन्वगच्छन् दिव्यानि विष्णुप्रहृणानि च तेना ते विस्मृतात्मानं सूतमाह जनार्दनः गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः सङ्कर्षणस्य निर्माणं बन्धुभ्यो ब्रूहि मद्यतां द्वारिकायां च स्थेयम् भवद्भिश्च सबन्धुभि मया त्यक्तां यद्पुरीं समुद्रप्लावयिष्यते परिग्रहं सर्वे आदाय पितरौचनः अर्जुनेनाविता सर्वम् इन्द्रपस्थं गमिष्यथ त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः मन्माया रचनामेतां विज्ञायोपशमं व्रज इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः तत्पादौ सृष्ट्युपाधाय दुर्मणां प्रियौ पुरीम् इति श्रीमद्भागवते महापुराणे पारहुंसां सहितायाम् एकादश